छन्दसि पुनर्वस्वोरेकवचनम् विशाखयोश्च तेष पुनर्वस्वोर्नक्षत्रत्वन्देववचनस्य कैवचनम् नित्यम् सर्वपाणामेकशेष एकविभक्तौ निर्दयुगुना तल्लक्षणश्चेव विशेषः स्त्री पुम्पश्च स्त्री पुंवच्ची पुंवच्च स्त्री पुंवच्ची पुंवच्ची पुंवच्च स्त्री पुंवच्ची पुंवच्ची पुंवच्ची पुंवच्च स्त्री स्त्री पुंवच्च वृद्धो यो नातलक्षणश्चैव विशेषः स्त्रीपुंवच्चिपुंवच्चमानिस्त्रिया पुमानिस्त्रिया पुमास्त्रिया स्त्रीपुंवच्च पुमानिस्त्रिया स्त्री पुंवच्चा पुमानिस्त्रिया श्रीपुंवच्च पुमानिस्त्रिया वृद्धो तल्लक्षणस्य वृद्धो यू न तल्लक्षणस्य देवविशेषः स्त्रीपुंवच्च पुमानिस्त्रिया वृद्धोऽयुना तल्लक्षणस्य देवविशेषः Α, ी ऊमच्चा <retransusted> कुमान स्त्रिया कुमानस्त्रिया धात्रिपुत्रौ स्वश्री दुहितृभ्यामान स्त्रिया रात्रिपुत्रौ स्वास्री दुहितृभ्यां कुमान स्त्रिया धात्रिपुत्रौ स्वास्री स्वास्री स्वश्री नी स्वासि निश्री स्वस्री दुहितृभ्यां धात्रिपुत्र स्वस्री दुहि त्रिभ्याम् रात्रिपुत्र स्वसी दुहितृभ्याम् धात्रिपुत्र सस्री दुहितृभ्याम् रात्रिपुत्र सस्री दुहितृभ्याम् कुमारित्रिया धात्रिपुत्र स्वश्री दुहितृभ्याम् कुमारित्रिया रात्रिपुत्र शास्री स्वी स्वस्री दुहितृभ्याम् धातृपुत्रौ सस्री दुहितृभ्याम् पुमानि स्त्रिया धातृपुत्रौ स्वस्री दुहितृभ्याम् स्त्री पुंवच पुमानिस्त्रिया धातृपुत्रौ स्वस्त्री दुहित्रीभ्याम् स्त्री पुंवञ्चा पुमानस्त्रिया भ्रातृपुत्रौ सहस्री दुहितृभ्याम् रिस्त्रीपुवञ्चा पुमानि स्त्रिया भ्रातृपुत्रौ सहस्रे दुहितृभ्याम् दुहित्रीभ्याम् दुहित्रीभ्याम् स्वस्रे दुहित्रीभ्याम् सहस्रे दुहितृभ्याम् रात्रिपुत्रौ स्वस्रे दुहित्रीभ्याम् न पुंसकमनपुंसकेनैकवच्चा स्यान्तरस्याम् भ्रात्रिपुत्रौ स्वीद्वित्रिभ्याम् नपुंसकम् नपुंसकेनैकवच्चास्यान्यतरस्याम् नपुंसकम् नपुंसकेनैकवच्चान्तरस्याम् नपुंसकम् नपुंसकेनैकवच्चास्यान्यतरस्याम् नपुंसकमनपुंसकेनैकवच्चास्य नरस्याम् भ्रात्रिपुत्रौ स्वस्री दुहित्रीभ्याम् नपुंसकमनपुंसकेनैकवच्चास्यातरस्याम् भ्रातृपुत्रौ स्वस्री दुहितृभ्याम् नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् भ्रातृपुत्रौ स्वस्री दुहितृभ्याम् नपुंसकमनपुंसकेनैकवच्चास्य पिता मात्रा पिता मात्रा पिता मात्रा पिता मात्रा नपुंसकमनपुंसक नपुंसकमनपुंसकेनैकवच्चास्य पिता मात्रा नपुंसकमनपुंसकेनैकवच्चातरस्याम् स्त्रीपुंवच्चमान् स्त्रियाम् रात्रिपुत्रौ स्वस्त्री तुत्रीभ्याम् नपुंसकमनपुंसकेनैकवच्चास्यानतरस्याम् पुंवच्ची पुंवच्चा पुमानिस्त्रिया धातृपुत्र सस्रे द्वित्रिभ्याम् नपुंसकपुंसकमनपुंसकेनैकवच्चा स्यान्नतरस्याम् पितामात्रा पिता मात्रा स्त्री पुंवच्चा राशिपुत्रौ शस्त्रीद्वित्रिभ्याम् नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् चिता मात्रा छन्दसि पुनर्वस्वोदेकवचनम् विशाखयोश्च दिश्य पुनर्वस्वो नक्षत्रत्वे बहुवचनस्य द्विवचनम् नित्यम् स्वरूपाणामेकशेष एक एकविभक्तौ वृद्धो यूना तल्लक्षणस्य देवविशेषा स्त्रीपुंवाच्च पुमानस्त्रिया भ्रात्रिपुत्रौ स्वीरुहित्रीभ्याम् न पुंसकमनपुंसकेनैकवच्चा शान्तरस्याम् पिता मात्रा छन्दसि पुनरवसरेन्दसि पुनरवसवोरेकवचनम् विशाखयोश्च शिष्य पुनरवसवोर तत्र तु देवौ वचनस्य तिवचनम् नित्यम् सरूपाणामेकशेष एकविभक्तौ वृद्धो यूना तल्लक्षणश्चेनेव विशेषः स्त्रीपुंवच्चा पुमानि स्त्रिया भ्रातृपुत्रौ साभ्याम् नपुंसकमनपुंसकेनैव वच्चास्यान्यतरस्याम् पिता मात्रा पिता मात्रा श्वशुरा श्वश्रु वा पिता मात्रा श्वशुरा श्वश्रु वा पिता मात्रा श्वशुरा श्वश्रु वा तदादीनि सर्वैर्नित्यम् तदादीनि सर्वैर्नित्यम् तदादीनि सर्वैर्नित्यम् श्वश्रः श्वश्रु वा तदादीनि सर्वैर्नित्यम् स्त्री श्वश्रुः श्वश्रुदाशु सङ्घेष्व तरुणेषु स्त्री श्वश्रुः श्वश्रु वा यदा दीनि सर्वैर्नित्यम् ग्राम पशु सङ्घेष्व तरुणेषु स्त्री श्वश्रुः श्वश्रु वा तदा दीनि सर्वैर्नित्यम् ग्रामपशु सन्धेष्व तरुणेषु स्त्री पिता माता पिता माता श्वश्रः श्वश्रु वा ददादीनि सर्वैर्नित्यम् ग्राम्यपशु सन्धेष्व तरुणेषु स्त्री पिता मात्रा सहस्रुः श्वश्रु वा ददादीनि ग्राम्यपटु सङ्घेष्वरुणे शिश्री पिता मात्रा शस्रा शस्रु वा तदा देमि सर्वै नित्यम् तदा हिमि सर्वै नित्यम् ग्राम्यपशु सङ्घेष्व तरुणे सुस्त्री इति द्वितीयापादा षन्त पुनर्वस्वोरेकवचनम् विशाखयोश्च शिश्य पुनर्वश्वो नक्षत्रत्वन्देववचनस्य विवचनम् नित्यम् सरूपाणामेकशेष एकविभक्तौ वृद्धो यूना तल्लक्षणस्यैवाविशेष स्त्रीकुम्वच्च उमानिस्त्रिया भात्रिपुत्रौ स्वश्रिगुहित्रीभ्याम् नपुंसकमनपुंसकेनैकवत्या शान्ति तस्याम् पिता मात्रा श्वश्रः श्वश्रु वा ददातीन् सर्वैर्नित्यम् ग्राम्यपशुसन्धेषु तन्नेषु वृत्ति इति क्रियापादा गाङ्कुटादिरूपधात् गाङ्कुटाद्युपदात्रूपन्दसि अपृक्तस् छन्दसि त्रयोदश त्रयोदश अपृक्तच्छन्दसि त्रयोदश अपृक्तच्छन्दसि पुनर्वस् त्रयोदश अपृक्तच्छन्दसि पुनर्वस त्रयोदश गाङ्कुटादिद्युदुपधात् अपृक्तच्छन्दसि गाङ्कुटाद्योद्युदुपदात् अप्यक्तच्छन्दसे पुनर्वचत्रयोदश गाङ्कुटाद्युद्योदुग्धात् अप्यक्तच्छन्दसे पुनर्वचत्रयोदश अपृक्त एताल प्रत्यया ताप्रकृति मिषति मिशति कृत्वा आणी अपृथकः छान्दसि अपृक्त एताल प्रत्यया तत्पुरुषा समानादिकारधारया प्रथमा निर्दिष्टम् समासौ समञ्जनम् एकविभक्तिश्च पूर्वनिवाते अर्थवदधातुरा प्रत्यया प्रातिपदिकम् कृत्तसमासाश्च हरस्वहंसके प्रातिपदिकश्च भोरिष्टियोनुपसर्जनश्च धरस्को नपुंसके प्रातिपदिकस्य यो स्त्रियोपसज्जनस्य लुप्त लुकि यद् गोण्याः लुपि उक्तवद् विरक्तिवचने विशेषणानाम् च जाते तरलशिष्यम् सञ्ज्ञा <laughs> त्वात् कालोपसर्जने चातुल्यम् जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्य अस्मदोदयोश्च फल्गुनिकोशपञ्च नक्षत्रे छन्दसे पुनर्वसभोरेकवचनम् विशाखयोश्च दृश्य पुनर्वसभोग्रन्द्वे बहुवचनस्य त्रिवचनम् नित्यम् स्वरूपाणामेकशेष एकविभक्तौ वृद्धो यूना तल्लक्षणश्चेदेव विशेषा स्त्री पुंवच्चा पुमानि स्त्रिया दार्तिमुक्तौ स्वीगुरित्रिभ्याम् नपुंसकम् नपुंसकेनैकवच्चाण्य पिता मात्रा श्वश्रुवा श्वश्रु वा यदा दीनि सर्वैर्नित्यम् ग्राम्यप्रसङ्गेषु कर्मेषु स्त्री ग्राम्यपशुषु कर्मेषु स्त्रीयः पादःपधात् अपेक्षे पुनर्वध्यायस्य पृथम् द्वितीयपादयोः आसीत् क्रियते